मा साहसमितीदम् सा सततम् वाचते किल साहसम् भीष्ममुखात् सिंहस्य खादतः दन्तान्तरविलग्नम् यत्तदा दत्तेऽल्पचेतना इच्छतः सा सिंहस्य भीष्म जीवत्य संशयम् सदा वाचः प्रभाषसे इच्छताम् भूमिपालानां भीष्मजीवस्य संशयम् लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः वैशम्पायन उवाच ततश्चेदि पते श्रुत्वा भीष्मः सकटुकं वचः उवाचेदं वचो राजंश्चेदि राजस्य शृण्वतः इच्छताम् किल नामाहं जीवां महीक्षिताम् सोऽहम् न गणयाम्येताम् सृणेनापि न ना राधिपान् एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः केचिज्जहृषिरे तत्र केचिद् भीष्मम् जगर्हि